श्रीहरये नमः अथ चतुर्थोऽध्यायः राजोपाच देवासुरनॄणां सर्गो नागानां मृगपक्षिणां सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुभेन्दरे तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा अनुसर्गं यया शक्त्या स सर्ज भगवान् परः च इति सम्प्रसन्नम् आकर्ण्य राजर्षेर्भातरायणिः प्रतिनन्द्यमहायोगी जकातमुनिसत्तमः श्रीसुख उवाच यथा प्रेचेदसः पुत्रा दशप्राचीनबर्हिषः अन्तःसमुद्रातुन्मग्ना ददृशोर्घान्ध्रुमैर्व्रतां ध्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः मुकतो वायुमग्निं ताभ्यां निर्दह्यमानां उपलभ्य कुरु द्वः राजोवाच महान् सोमो मन्युं प्रशमयन् प्राजानां पतय स्मृताः अहो प्रजापति पतेर्भगवान् हरिरव्ययः वनस्पतीनोक्षधीश्च ससर्जोर्जमिषं विभुः अन्नं चराणाम् अचरा ह्यभधपादचारिणाम् अहस्ताहस्तयुक्तानां द्विपदां च चतुष्पदः यूयं च पित्रान् वाधिष्ठा देवदेवेन च अनघाः प्रजासर्गाय हि कथं रक्षान् निर्धक्तुम् अर्हता आदिष्टत मार्गम् कोपं यच्छत दीपितं पित्रापितामहेनापि जुष्टं वः प्रपितामहैः तोकानां पितरौभन्थो धृषः पश्मस्त्रियाः पतिः पतिप्रजानां भिक्षूणां गृह्यज्ञानां भूतस् सुकृतम् अन्तर्देहेषु भूतानां आत्मास्ते हरिरीश्वरः सर्वं दत्तिष्ण्यम् ईशत्वमेवं वस्तोषितो ह्यसो य समुत्पतितं देह आकाशान्मन्युमुल्भणम् आत्मजिज्ञासयास्यच्चेत् स गुणानतिवर्तते अलं दप्तैर्ध्रुमैर्दीनैः किलानां शिवमस्तुभः वाषी हेशा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् इत्यामन्त्रियवरारोहां कन्यामाप्स रसीन्द्रफ सोमो राजाय ते धर्मेणोपयेमि रें देव्यस्तस्यां समभवत् दक्षप्रोचेत स किल लोका अपूरितास्त्रयः यथा ससर्जभूतानि दक्षो दुहितृवत्सलहान् रेतसा मनसा चैव तन्ममावहितः शृणो मनसैवासृजत् पूर्वं प्रजापतिरि प्रजासर्गं प्रजापतिहे विन्ध्यपादानुपौरज्य शोषर शोशरदुष्करं तपः तत्राघमर्षणं नाम तीर्थं पापहरं परम् उपस्पृश्यानुसवनं तपसा दोषयत् हरिम् अस्तौ क्षीद्हंस गुह्येन अदोक्षजं तुभ्यं ततभिधास्यामि कस्यातुष्यद् यतो हरिः प्रजापतिर्वाच नमःपराया विदधानुभूतये गुणत्रयाभासनिमित् बन्धवे अदृष्टधाम्ने निव्रत्तमाना यद्धते स्वयं भुभे न यस्य सख्यं पुरुषो वैति सख्युः सखावसन्सं वसतः पुरेऽस्मिन् गुणो यथा गुणिनो व्यक्तदृष्टे तस्मै महे साय नमस्करोमि देहो सभोषा नवोभूतमात्रा नात्मानमन्यं च विदुःपरं यत् सर्वम्भुमान् वेत गुणांश्च तज्ञो न वेद सर्वज्ञमनन्तमीढे यथोपरामो मनसो नाम रूपस्य दृष्टस्मृतिसम्प्रमुक्षात् ययीयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसत्मने नमः मनीक्षिणोऽन्तर्हृति संनिवेशितं स्वशक्तिभिर्नवभिश्चतुर्वर्धिभिः वक्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्धिगूढम् सभै ममोऽशेषविशेषमायां निषेधनिर्वाणसुखानुभूतेर् स सर्वनामा स च विश्वरूपः प्रसीदताम् अनिरुद्धात्मशक्तिः यन् यन्निरुक्तं वचसा निरूपितं दियाक्षभिर्वा मनसा वोदयस्य मा भूत्स्वरूपं गुणरूपं हि तत्तत् स वै गुणपायविसर्गलक्षणः यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च परावरेषां परमं प्राक्प्रसिद्धं प्रसिद्धं तद्ब्रह्म तथ्येथो अनन्यदेहं यच्छक्तयो वदतां वादिनां वै विभादसंवादभुवो भवन्ति कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने अस्तीति नास्तीति च वष्टुनिष्ठयो एकस्तयोर्भिन्नविरुद्धधर्मयोः अवेक्षितं किञ्चनयोगसांख्ययो समं परं ह्यनुकूलं बृहत् तद् योऽनुग्रहार्थं भजतां अनामरूपो भगवान् नामानि रूपाणि च जन्मकर्म भे भेजे स मह्यं परमप्रसीदथो यः प्राकृतैर्ज्ञानपदैर्जनानां यथा सयं देहगतो विभाधि यथा निलः गुणं स ईश्वरो मे कुरु श्रीशुक उवाच इति स्तुतः संस्तुवतः स तस्मिन्न गर्मर्षणे आवीरासीत् कुरु धनुपासगताधरः पीतवासघनश्यामः प्रसन्तवदनेक्षणः वनमालानि विधाङ्गो लस श्रीवत्सकौस्तुभः महाकिरीटकटक स्फुरन्मकरकुण्ठलः काञ्चङ्गुलीयवलय नूपुराङ्गतभूषितः त्रैलोक्यमोखनं रूपं बिभ्रत्रिभुवनेश्वरः पृथो नारदनं पार्श्वदैः सूरयूतपैः स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः रूपं तन्महदाश्चर्यं विचक्ष्या गतसाध्वसः न नामदण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः न किञ्चनोदीरयितुम् असखस्तीव्रयामुदा अपूरितमनोद्वारैर्हृदिन्य इव निर्झरै तं तथा अवनतं भक्तं प्रजाकामं प्रजापतिं चित्तज्ञः सर्वभूतानाम् इदमाह जनार्दनः श्रीभगवानुवाच प्राचेतस महाभाग संसिद्धस्तपसा यच्छद्धया मत्परया मयि भावं परं गतः प्रीतोऽहं ते प्रजानाथ यते स्योद्ब्रह्मणं तपः मम क्षकामो भूतानाम् यद्भूयासुर्विभूतयः ब्रह्मो भवो भवन्तश्च मनवो विबुधेश्वराः विभूतयो मम भूतानां भूतिहेतवः तपो मे हृदयं ब्रह्मन् तनुर्विद्याक्रियाकृतिः अङ्गानि क्रतमो जाता धर्म आत्मा सवसुराः अहमेव संयेमवाग्रे नान्यत्किञ्चान्तरं बहेर्समज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः मय्य नन्दगुणेनन्दे गुणधो गुणविग्रहः यथासीत्ततये वाद्य स्वयं भू समभूदजः सर्वै यधा महादेवो मम वीर्यो बब्रुह्मितः मेने किलमिवात्मानम् उद्यतः सर्गकर्मणि अथ मे विहितो देवस्तपोतप्यधदारुणम् नव विश्वसृजोयुष्मान् येनाधौ अवसृज विभुः एषा पञ्जनस्याङ्घ दुहिता वै प्रजापतेः असिग्नी नाम पत्नीत्वे प्रजे स प्रतिगृह्यता मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः मिथुनव्यवायधर्मिण्याम् भूरिशो भावयिष्यसि त्वत्तोधस्तात् प्रजा सर्वामितुनी मायया मदीयया भविष्यन्ते हरिष्यन्ति च मे बलिं श्रीसुख उवाच इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः स्वप्नोपलब्धार्त तत्रैवान्तर्धते हरिः इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे चतुर्दोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराजिके जय